द्वात्रिंशोऽध्यायः सौतिरुवाच ततस्तस्मिन् द्विज समुदीर्णे तथाविधे गरुडः पक्षिराट् तूर्णम् सम्प्राप्तो विबुधान् प्रति तम् दृष्ट्वाति बलम् चैव प्राकम् पन्तसुरास्ततः परस्परम् च प्रत्यघ्नन् सर्वप्रहरणान्युत तत्र चासीदमेयात्मा विद्युदग्नि समप्रभः परिरक्षिता स तेन पतगेन्द्रेण पक्षतुण्डनखक्षतः मुहूर्तमतुलम् युद्धं कृत्वा विनिहितो युधि रजश्चोद्धूय सुमहत्पक्षवा तेन खेचरः कृत्वा लोकान् निरालोकान्स्तेन देवानवाकिरत् तेनावकीर्णा रजसा देवामोऽहमुपागमन् न चैवम् ददृशच्छन्ना रजसामृतरक्षिणः एवम् संलोडयामास गरुडस्त्रिदिवालयम् पक्षतुण्डप्रहारैस्तु देवान् वायुमचोदयत् विक्षिपे माम् रजो वृष्टिम् कर्ममारुत अथ वायुरपो वाह तद्रजस्तरसाबली ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ननादोच्चैः स बलवान् महामेघ इवाम्बरे वध्यमानः सर्वभूतानि भीषयन् उत्पपात महावीर्यः पट्टिषैः परिघैः शूलैर्गदाभिश्च स वासवाः क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः नानाशस्त्र विसर्गैस्तैर्वध्यमानः समन्ततः कुर्वन् सुतुमुलम् युद्धम् पक्षिराण्णव्यकम्पत निर्दहन्निव चाकाशे वैन ते विक्षिप्तास्ततो देवा न खुंड क्षता शुश्रुव शोणित बहु साध्याचीन सर्वा वसवो दक्षिण दिश् प्रजग्म सहिता रुद्रा दिशं प्रतीची आदि ना सुतरा दिश् मुहुर्मुहु प्रेक्षाण यु महौजस अश्वक्रंदेन वीरेण रेणुक पक्षिरा क्रथन चूरेण तपन चेचर पक्षिरा प्ररुजेन च सङ्ग्रामम् चकार पुलिनेन च तान् पक्ष नखतुण्डाग्रैर् अभिनद्विनता सुतः पिनाकीव परन्तपः महाबला महोत्साहास्तेन ते बहुधाक्षताः रेजुरभ्र घन प्रख्या रुधिरोघ प्रवर्षिणः तान् कृत्वा पदक श्रेष्ठः जीवितान् अतिक्रान्तोऽ मृतस्यार्थे सर्वतोऽग्निमपश्यत आवृण्वानम् महाज्वालं अर्चिभिः सर्वतोम्बरम् दहन्तमिव तीक्ष्णाम् शुञ्चण्ड ततो नवत्या नवतीर्मुखानाम् कृत्वा महात्मा गरुडस्तरस्वी नदीः मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन ज्वलन्तमग्निम् तम मित्र नदीभिः ततः प्रचक्रेव पुरन्यदल्पम् इति श्री महाभारते महाभार आदिपर्वण आस्तीकपर्व सौपर्णे द्वांशोध्याय